श्रीमद्भागवत् महापुराणम् एकादशस्कन्ध पञ्चदशोऽध्यायः मनो मयि देहं तदनुवायुनां मद्धारणानुभावेन तत्रात्मा यत्र वै मनः यदा मनुपादाय यद्यद्रूपं बुभूषते तत्तद्भवेन्मनोरूपं मद्योगबलमाश्रयः परकायं विसंसिद्ध आत्मानम् तत्र भावयेत् पिण्डम् ह्यत्वा विशेत् प्राणो वायुभूत सदङ्घ्रिवत् पार्षण्या पिडगुदम् प्राणं चतुर कण्ठमूर्धस आरोप्य ब्रह्मरन्ध्रेण ब्रह्मणि त्वोऽ बिहरिष्यन् सुराक्रीडे मत्त्वं सत्त्वं विभावयेत् विमानेनोपतिष्ठन्ते सत्त्ववृत्तिसुरश्रियः यथा सङ्कल्पयेद्बुद्ध्या यदा वा मत्परपुमान् मयि सत्ये मनोयुञ्जन् तथा तन् समुपाशुते यो वै मद्भावमापन्न इषतुर्वसितो पुमान् कुतश्चिन्नभिहन्येत तस्य चाज्ञा यथा मम मद्भक्त्या शुद्धसत्त्वस्य योगिनो धारणाविदः तस्य तैकालिके बुद्धिर्जन्ममृत्युपविहिताम् अग्न्यादिर्भिर्नहन्येत मुनिर्योगमयं वपुः मद्योगशान्तचित्तस्य जालसामुदकं यथा मद्विभूतिरभिध्यायन् श्रीवशास्त्र विभूषिताः धजातपत्रविजनैष भवेत्पराजितः उपासकस्य मामेवं योगधारणया मुनेः सिद्धय पूर्वकथिता उपदेशद् जितेन्द्रियस्य दान्तस्य जितश्वासात्मनो मुनेऽहम् मद्धारणाम् धारयत का सा सिद्धेषु दुर्लभा अन्तराजान् वदन्ते तां युञ्जतो योगमुत्तमम् मया सम्पद्यमालस्य कालक्षपणहेतवः जन्मौषधी तपो मन्त्रये यावतीरिहसिद्धय योगे नाप्नोति ता सर्वा लाल्ययोगगतिं व्रजेत् तर्वासामपि सिद्धेनाम् हेतोपतिरहम् प्रभो अहं योगस्य साङ्खस्य धर्मस्य ब्रह्मवादिनाम् अहमात्मान्तरो वा यो नावृत सर्वदेहिनाम् यथा भूतानि भूते सो बहिरन्त स्वयम् तथा ए महापुराणे पारहिंसाम् चैतायाम् एकादश स्कन्धे पञ्चदशोऽध्यायः